कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे तृतीयः प्रश्नः प्रारम्भः उत्सन्नयज्ञो वै उत्सन्नयज्ञ इत्युत्सन्नयज्ञः वा एषः यदे, किंवा वाह अहैतस्य एतस्य क्रियते क्रियते किम् किंवान न यत् यद्वै वै यज्ञस्य यज्ञस्य क्रियमाणस्य क्रियमाणस्यान्तर्यन्ति पूयति तर्यैरीत्यन्तः यन्ति पूयति वै वा अस्य अस्य तत् तदाश्विनीः अश्विनीरुप उपदधाति यथा अश्विनौ अश्विनौ वै वै देवानाम् देवानाम् विश्रौ भिश्रौ अस्मै भेषणम् भेषजम् करोति करोति पञ्च पञ्चोप उपदधाति दधातिपाङ्कः पाङ्को यज्ञः यज्ञो यावान् यावानेव या एव यज्ञः यज्ञस्तस्मै तस्मै भेषितम् भेश़ं, भेषितम् करोति करो कृतव्या आह कृतव्या उप उपदधाति तथातृतूनाम् कृतूनान्वृप्त्यै कृत्यैपञ्च पञ्चोप उपदधाति दधादिपञ्च पञ्चवै वा दृतपः कृतवो यावन्तः यावन्तयैव एवर्तवः स्तान् तान् कल्पयति कल्पयति समानप्रभृतयः समानप्रभृतयो भवन्ति समानप्रभृतय इति समानाप्रभृतयः भवन्ति समानोदर्काः समानोदर्कास्तस्मात् समानोदर्का इति समाना उदर्काः तस्मात् समानाः समाना ऋतवः ऋतव एकेन पदेन पदेन व्यावर्तन्ते व्यावर्तन्ते तस्मात् व्यावर्तन्ते इति तस्मादवः ऋतवो व्यावर्तन्ते व्यावर्तन्ते प्राणभृतः व्यावर्तन्त इति आवर्तन्ते प्राणभृत उप प्राणभृत इति प्राणाभृतः उपदधाति रुधात् एव प्राणान् प्राणान् दधाति प्राणान् यदि प्राणान् समानाः समानाः सन्तः सन्तऋतवः ऋतवो न जीर्यन्ति जीर्यन्त्यथो अथोप्र तथो इत्यथोः प्रजनयति जनयत्येव एवैनान् एनानेषः एष वै वै वायुः यत्प्राणः प्राणो यत् प्राण इति प्राणः यदृ्या आह द्रव्या उपधाय उपधाय प्राणभृतः उपधायेत्युपाधाय प्राणभृत उपदधाति प्राणभृत इति प्राणाभृतः उपदधाति तस्मात् उपदधादेत्युपादधाति तस्मात् सर्वान् सर्वा ऋतोन् धृतो ननु अनु वायुः आवरीवर्ती परीवर्तिवृष्टिसनीः वृष्टिसनीरुप वृष्टिसनीरिति वृष्टिसनीहिः उपदधाति दधाति वृष्टिम् वृष्टिमेव एवाव अपरुन्धे वृन्धे यत् यदेकथा एकथोपदध्यात् एकथेद्येकाधा उपदध्यादेकम् उपदध्यादिद्युपादध्यात् एकमृतम् मृतम् वर्षेद् वर्षेदनुपरिहारम् अनुपरिहारकम् साधयति अनुपरिहारमित्यलोपरिहारम् साधयति तस्मात् तस्मात् सर्वान् सर्वानृतोन् ऋतोन्वर्षति वर्षति यत् यत्प्राणभृतः प्राणभृत उपधाय प्राणभृत इति प्राणाभृतः उपधाय वृष्टिसुनीः उपधाय इत्युपाधाय वृष्टिसनीरुपदधाति वृष्टिसनेरिति वृष्टिसुनीः उपदधाति तस्मात् उपदधाते इत्युपादधाति तस्माद्वायुप्रच्युता वायुप्रच्युता दिवः वायुप्रच्युतेरि वायुप्रच्युताः दिवो वृष्टिः वृष्टिरीर्ते ईर्ते पशवः पशवो वै वै वस्याः यस्या नानामनसः नानामनसः खलु नानामनस इति नानामनसः खलु वै वै पशवः पशवो नानाव्रताः नानाव्रतास्ते ना ना नानाव्रता इति नाना आव्रताः ते एवः अप एव एवाभि मनसः यम् कामयेत कामयेत पशुः अपशुः स्यात् स्यादिति इति वयस्याः वयस्यास्तस्य उपधायापस्याः उपधायेत्युपाधाय अपस्या उप उपदध्याद् दध्यादसञ्ज्ञानम् असम् ज्ञानमेव असम् ज्ञानमित्यसम् ज्ञानम् एवास्मै अस्मै पशुभिः पशुभिः करोति पशुभिजति पशुभिः करोति पशुः अपशुरेव एव भवति भवतीयम् कामयेत् कामयेत् पशुमान् पशुमान् स्यात् पशुमानिति पशुमान् स्यादिति इत्यपस्याः अपस्यास्तस्य तस्योपधाय उपधाय वयस्याः उपधायेत्युपाधाय वयस्या उप अपदध्यात् दध्यात्सञ्ज्ञानम् सञ्ज्ञानमेव सञ्ज्ञानमिति सञ्ज्ञानम् एवास्मैः अस्मै पशुभिः पशुभिः करोति पशुभिरिति पशुभिः करोति पशुमान् पशुमानेव पशुमानिति पशुमान् एव भवति भवति चतस्रः चतस्रः पुरस्तात् पुरस्तादुप उपदधाति दधा तस्मात् तस्माच्चत्वारि चत्वारि चक्षुषः चक्षुषोरूपाणि रूपाणि द्वे द्वे शुक्ले द्वे इति द्वे शुक्ले द्वे शुक्ले इरि शुक्ले द्वे कृष्णे द्वे इति कृष्णे मोमूर्धन्वतीः कृष्णे इरि कृष्णे मूर्धन्वतीर्भवन्ति मूर्धन्वतीरिति मूर्धन्वती भवन्ति तस्मात् तस्मात् पुरस्तात् पुरस्तान्मूर्धा मूर्धा पञ्च पञ्चदक्षिणायाम् दक्षिणायाधिश्रावण्याम् श्रावण्यामुप उपदधाति दधाति पञ्च पञ्चोत्तरस्याम् उत्तरस्याम् तस्मात् उत्तरस्यामित्युदोत्तरस्याम् तस्मात् पश्चात् पश्चाद्वर्षीयान् पश्चाद वृषीयान् पुरस्तावत्प्रवणः पुरस्तावत्प्रवणः पशुः पुरस्तावत्प्रवणः इति पुरस्तात् प्रवणः पशुर्भस्तः भस्तोऽवयः वय इति दक्षिणे दक्षिणे पुंसे अगुंसमुप उपदधाति दधाति कृष्णिः प्रश्निर्वयः वय इति इत्युत्तरे उत्तरे पुंसौ उत्तरैद्यतोत्तरे अगुंसावेव एव प्रति प्रतिदधाति दधाति व्याघ्रः इति दक्षिणे दक्षिणे पक्षे पक्ष उप उपदधाति दधाति सिगिंहः सिगृंहो वयः पय इति इत्युत्तरे उत्तरे पक्षयोः उत्तर इति पक्षयोरेव एव वीर्यम् वीर्यम् दधाति दधाति पुरुषः पुरुषो वयः वय इति इति मध्ये मध्ये तस्मात् तस्मात् पुरुषः पुरुषः पशूनामधिपतिः अधिपतिरित्यधिपतिः इन्द्राण्ये अव्यसमानाम् इन्द्राण्ये इतिन्द्राण्यः अव्यसमानामिति इति स्वयमातॄणाम् स्वयमातॄणामुप स्वयमातॄर्णामिति स्वयम् मातॄणाम् दधादि तथातीन्द्राग्निभ्याम् इन्द्राग्निभ्याम् वै इन्द्राग्णिभ्यामितीन्द्राग्नीभ्याम् वायुमौ इमौ लोकौ लोकौ विधृतौ विधृतावनयोः विधृताधृतौ अनयोर्लोकयोः लोकयोर्विधृत्यै विधृत्या अधृता विधृत्या इति विधृत्यै अधृतेव इभवै वा एषा एषा यत् यन्मध्यमा मध्यमा चितिः चितिरन्तरिक्षम् अन्तरिक्षमिव इवै वा एषा इति इन्द्राग्नी इति इत्याह आहेन्द्राग्नी इन्द्राग्नी वै इन्द्राग्नी इति इन्द्रा वै देवानाम् देवानामोजोभृतौ ओजोभृता ओजसा ओजोभृता विद्योजः भृतौ ओजसैव ये वैना येनामन्तरिक्षे अन्तरिक्षे चिनुते चिनते धृत्यैः धृत्यैः श्रयमातृणाम् श्रयमादृणामुप श्रेमादृन्नामिति वै वै श्रयमादृन्ना श्रयमातृण्णान्तरिक्षम् श्रेयमातृण्यम् आदृण्णा अन्तरिक्षमेव देवोप उपधत्ते धत्तेऽश्वम् अश्वमुप उपघ्राभयति घ्राभयति प्राणम् प्राणमेव प्राणमिति प्राणम् एवास्याम् तस्याम् दधाति तथात्यथोः रथोः प्राजापत्यः रथोपित्यथोः प्राजापत्यो वै प्राजापत्यैति प्राजापत्यः वा अश्वः अश्वः प्रजापतिनः प्रजापतिनैव एवाग्निम् अग्निम् चिनुते चिनुदे स्वयमादृन्ना स्वयमादृन्ना भवति स्वयमादृण्णे यदि स्वयम् आदृन्ना भवति उत्सृष्ट्या अथोः उत्सृष्ट्या इत्यत सृष्टिः अथो सुवर्गस्य अथो इत्यथोः सुवर्गस्य लोकस्य सुवर्गस्येति सुभहागस्य लोकस्यानुख्यात्यै अनुख्याति देवानाम् अनुख्यात्या इत्यनुख्यातिः देवानां वै वै सुवर्गम् सुवर्गं, सुवर्गं लोकम् सुवर्गमिति सुवहागम् लोकम् यताम् यतां दिशः निशः सम् समभ्लीयन्त अवलीयन्त ते दिश्या अपश्यन् अपश्यन्ताः अपश्यन ता उप उपादधत उपा अदधतताभिः ताभिर्वै वै ते ते दिशः यशोदृगुंहन् तदृगुंहनयत् यद्दिश्या आह दिश्या उपदधाति उपदधाति दिशाम् उपदधाति जपा दधाति दिशाम् विधृत्यै विधृत्यै दशा विधृत्याै दश प्राणभृतः प्राणभृतः पुरस्ताद् प्राणभृत इति प्राणाभृतः पुरस्तादुप उपदधाति दधाति नव नव वै पुरुषे पुरुषे प्राणाः प्राणानाभिः प्राणा इति प्राणाः नाभिर्दशमी दशमी प्राणाविति प्राणान् एव पुरस्तात् पुरस्तात्ते धत्ते तस्मात् तस्मात् पुरस्तात् पुरस्तात् प्राणाः प्राणाज्योतिष्वदीम् प्राणा इति प्राणाः ज्योतिष्वतीमाविद्युतो दमा उपदधाति दधाति तस्मात् तस्मात् प्राणानाम् प्राणानाम् वा प्राणानामिति प्राणानाम् वा ज्योतिः ज्योतिरुत्तमा उत्तमा दशा उत्तमेद्युतो दमा उप दधाति धातुरिराड् छन्दसाञ्ज्योतिः ज्योतिर्ज्योतिः ज्योतिरेव एव पुरस्ताद् पुरस्ताद् धत्ते धृते तस्माद् तस्मात् पुरस्ताद् पुरस्तान् ज्योतिः ज्योतिर्वा वा अस्महे आस्महे छन्दागुंसि छन्दापुंसि पशुषो पशुष्वाजिम् आजिमयोः अजस्मान् तान् रृहति रहद्युत् उरजयत् रजयत्तस्मात् तस्माद्बाघदाः वाघदाः पशवः पशव मा छन्दः छन्द इति दक्षिणत उप उपदधाति दधाति तस्मात् तस्माद्दक्षिणावृतः दक्षिणावृतो मासाः इति दक्षिणा आवृतः वासा अस्पृथिवी पृथिवी छन्दः छन्द इति इति पश्चात् पश्चात्प्रदिश्यत्यै प्रदिश्यत्या अग्निः प्रदक्षत्या इति प्रस्थित्यै अग्निर्देवता देवतेति इत्युत्तरतः वृत्तरथ ओजः वृत्तरथयद्युदो दरदः ओजो वै त्वा अग्निः अग्निरोजः ओज एव देवोत्तरतः वृत्तरतो धत्ते वृत्तरथयद्युदो दरदः धत्ते तस्मादुत्तरतोऽभिप्रयायी उत्तरतोऽभिप्रयायी च यदि उत्तरतोऽभिप्रयायी इत्युत्तरतः अभिप्रयायी षट्त्रिकंशत् षट्रिकंषत्सम् षटत्रिकं द्विषट् त्रिकंशत् सम्पद्यन्ते पद्यन्ते षट्रिकम् षदक्षरा षट्रिकम् षदक्षरा बृहति षट्रिकम् सदक्षरे त्रिषत्रिकम् सत् अक्षराः बृहति बार्हदाः बार्हदाः पशवः पशवो बृहत्या बृहत्यैव स्मै अस्मै पशूर् पशुरव अवरुन्धे वृन्धे बृहति बृहति छन्दसा छन्दसा विस्वारा अज्यम् स्वारा अज्यम् परि यायस्य यस्यैताः एता उपधीजन्दे उपधिजन्दे गच्छति उपधीजन्दे गच्छति स्वारा अद्यम् स्वारा अज्यकम् सप्त स्वारा अज्य बालखिल्याः पुरस्तात् बालखिल्या इति बालाखिल्याः सप्त सप्त पश्चात् सप्त सप्त वै वै शीर्षण्याः प्राणाः प्राणाद्वौ प्राणा इति प्राणाः द्वाववाञौ अवाञ्जौ प्राणानाकं सवेर्य प्राणानामिति प्राणानाः सवेर्यत्नाय मूर्धा सवेर्यत्नाय इति मूर्धासि श्रीराड् राडिदि इति पुरस्ताद् पुरस्तादुप उपदधाति दधाति यन्द्रीः यन्द्रीराड् राडिदि इति पश्चात् पश्चात् प्राणान् प्राणानेव प्राणानि प्राणान् एवास्मै अस्मै समीचः समीचो दधाति दधातीति दधाति देवायै ै यद् यद्यज्ञे यज्ञे कुर्वत अकुर्वतत् तदसुराः असुरा अकुर्वत अकुर्वतते हे देवाः देवा एताः एता अक्ष्णया सोमीयाः अक्ष्मया सोमीया अपश्यन् अक्ष्मया सोमीया अन्यक्ष्णया सोमीयाः अपश्यन्ताः सा अन्यथा अन्यथा नोच्य अनोच्यान्विथा अनोच्येत्यनोच्य अन्यथोप उपादधर अदधत तदसुराः असुरा न नान्ववायन् अन्ववायन् ततः अन्ववायन् इत्यनो अवायन् ततो देवाः देवा अभवन् अभवन् वराः परासुराः असुरायत् विदक्षणया सोमीयाः लक्ष्मया सोमीया अन्यथा लक्ष्मया सोमीया इत्यक्ष्णया सोमीयाः अरण्यथा नोच्य अनोच्च अन्यथा अनोच्य इत्यनोच्च अरण्यथोपदधादि उपदधातिभ्रातृव्याभिभूत्यै उपदधाति इत्युपादधाति भ्रातृव्याभिभोज्यै भवति भ्रातृव्याभिभोज्या इति भ्रातृव्या अभिभोज्यः भवत्यात्मनाः आत्मना पराः पराः स्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवत्याशुः आशुस्त्रिवृत् त्रिभजने त्रिभजनि त्रिवृत् इति पुरस्तात् पुरस्तादुप उपदधाति यज्ञमुखम् यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वै त्रिवृत् त्रिवृद्ध्यज्ञमुखम् त्रिवृद्धति त्रिवृत् यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्विदयति यादयति व्योम व्योम सप्तदशः व्योमे दिवि ओम सप्तदश इति सप्तदश इति सप्तादशः इति दक्षिणतः दक्षिणतोऽन्नम् अन्नम् वै वै व्योम व्योमान्नम् व्योमे दिवि ओम अन्नपम् सप्तदशः सप्तदशोऽन्नम्दश इति सप्तादशः अन्नमेव एव दक्षिणतः दक्षिणतो धर्ते धर्ते तस्मात् दक्षिणेनान्नम् अन्नमद्यते अद्यते धरुणः धरुण एकविदुंशः एकविदुंश इति एकविगुंश इत्येका पश्चात् पश्चात्प्रतिष्ठा प्रतिष्ठा वै प्रतिष्ठे वा एकविदुंशः एकविदुंशः प्रतिष्ठित्यै एकविदुंश इत्येका विदुंशः प्रतिष्ठित्यै भान्धः प्रतिष्ठित्या भान्तः पञ्चदशः पञ्चदशेति पञ्चदशैति पञ्चदशः इत्युत्तरतः उत्तरदभोजः उत्तरद इत्युदरतः ओजो वै वै भान्तः भान्तभोजः ओजः पञ्चदशः पञ्चदशभोजः पञ्चदशैः पञ्चादशः रोज एवोत्तरतः उत्तरतो धत्ते उत्तरः धत्ते तस्मात् तस्मादुत्तरतोभिप्रयायी उत्तरतोऽभिप्रयायी चेति उत्तरतोऽभिप्रयायी इत्युत्तरः अभिप्रयायी चेति प्रतो प्रदोर्तिरक्षादशः प्रदोर्तिः अष्टादश इति इति पुरस्ताद् पुरस्तादुप उपदधाति दधाति द्वौ द्वौ पूर्वम् वृताविचिद्रे वृतौ अभिपूर्वम् यज्ञमुखे अभिपूर्वमित्यभिपूर्वम् यज्ञमुखेऽपि यज्ञमुख इति यज्ञामुखे नि यातयति यातयज्ञभिवर्त्तः अभिवर्तः स विघुंसः अभिवर्णयज्ञभिवर्तः सविघुंस इति सविघुंस इति स दक्षिणतः दक्षिणतोऽन्नम् अन्नम् वै वा अभिवर्त्नः अभिवर्तोऽन्नम् अभिवर्ध इत्यभिवर्णः अन्नपुंस विपुंसः स विपुंसोऽन्नम् स विपुंस इति अन्नमेव एव दक्षिणतः दक्षिणतो धत्ते धर्ते तस्माद् दक्षिणेन दक्षिणेनान्नम् अन्नपद्यते तद्यते वर्चः वर्चो वा विभुंसः इति पश्चात् पश्चाद्यद् यद्विघुंसतिः विघुंसतिर्द्वे द्वेदेन द्वे इलि द्वे तेन विराजौ विराजौ यत् विराजा विधिविराजौ यद्वे द्वे प्रतिष्ठा द्वे द्वे प्रतिष्ठा तेन प्रतिष्ठे विप्रैस्था तेन विराजोः विराजोरेम विराजोरितिविराजोः एवाभिपूर्वम् अभिपूर्वमन्नाद्ये अभिपूर्वमित्यभिपूर्वम् अन्नाद्ये प्रति अन्नाद्यैत्युन्नाद्ये प्रतितिष्ठति तिष्ठति तपः तपो नवदशः नवदश इति नवदश इति नवदशः इत्युत्तरतः उत्तरतस्तस्मात् उत्तरते तरतः तस्मात् सव्यः सव्यो हस्तयोः हस्तयोस्तपस्वितरः तपस्वितरो योनिः तपस्वितर इति तपस्वीतरः योरिषतुर्विपुंशः चतुर्विकंश इति चतुर्विकंश इति चतुर्विघुंशः इति पुरस्तात् पुरस्तादुप उपदधाति तथा चतुर्विघंशत्यक्षरा चतुर्विघंशत्यक्षरा गायत्री चतुर्विघंशत्यक्षरे चतुर्विघंशति अक्षरा राजत्रीराजत्री राजत्रीयज्ञमुखम् यज्ञमुखम् यज्ञमुखम् यज्ञमुखमिति यज्ञामुखम् यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्वियादयति यादयति गर्भा आह गर्भाः पञ्चविपुंसः पञ्चविदुंश इति पञ्चविदुंश इति पञ्चविपुंसः इति दक्षिणतः दक्षिणतोऽन्नम् अन्नम् वै मयि गर्भा गर्भा अन्नम् अन्नम् पञ्चविदुंसः पञ्चविघुंशोऽन्नम् पञ्चविघुंश इति पञ्चविघुंशः अन्नमेव एव दक्षिणतः दक्षिणतो धत्ते धत्ते तस्मात् तस्माद्दक्षिणेन दक्षिणेनान्नम् अन्नमद्यते अद्यतभोजः भोजस्रिणवः त्रिणव इति त्रिणव इति त्रिणवः पश्चादिमे इमे वै वै लोकाः लोकाश्रिणवः त्रिणवहेषु त्रिणव इति एव लोकेषु लोकेषु प्रति प्रतिष्ठति तिष्ठति सम्भरणः सम्भरणस्त्रयो विघुंशः सम्भरण इति सम्भरणः त्रयो विगुंस इति त्रयः विघुंशः इत्युत्तरतः उत्तरतस्तस्मात् उत्तरत तस्मात् संव्यः सव्यो हस्तयोः हस्तयोः सम्भाव्यतरः क्रतुः सम्भाव्यतर इति सम्भाव्यातरः क्रतुरेकत्रिपुंशः एकत्रिपुंश इति एकत्रिपुंश इत्येकत्रिपुंशः इति पुरस्तात् पुरस्तादुप उपदधाति दधाति वाग् वाग्वै वै क्रतुः क्रतुर्यज्ञमुखम् यज्ञमुखम् वाग् यज्ञमुखमिति यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्वियातयति ब्रद्धस्य विष्टवम् विष्टवम् चतुस्त्रिंशः चतुस्त्रिविंश इति चतुस्त्रिंशैति चतुः इति दक्षिणतः दक्षिणतोऽसौ असौ वै वा आदित्यः आदित्यो ब्रध्मस्य ब्रद्धस्य विष्टवम् विष्टवम् ब्रह्मवर्चसम् ब्रह्मवर्चसमेव ब्रह्मवर्चसमिति ब्रह्म एव दक्षिणतः दक्षिणतो धत्ते धत्ते तस्मात् तस्माद्दक्षिणः दक्षिणार्थः अर्धो अब्रह्मवर्चसितरः ब्रह्मवर्चसितरः प्रतिष्ठा ब्रह्मवर्चसितर इति ब्रह्मवर्चसीतरः प्रतिष्ठात्रयस्त्रिवंशः प्रतिष्ठैलिप्रदेस्था त्रयस्त्रिगंश इति इति पश्चात् पश्चात्प्रतिष्ठित्यै प्रतिष्ठित्यै नागः प्रदेष्ठेद्या इति प्रदेस्थिद्यैः नागः षट्त्रिगुंसः षट्त्रिगंश इति षट्त्रिगुंश इति षट् त्रिगुंसः इत्युत्तरतः उत्तरतः लोको नाकः नाकः स्वर्गस्य लोकस्य स्वर्गस्य इति सुवभागस्य लोकस्य समष्यै समष्ट्या इति समष्टि अग्नेर्भागः भागोऽसि असीति इति पुरस्तात् पुरस्तादुप उपदधाति दधाति यज्ञमुखम् यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वा अग्निः अग्निर्यज्ञमुखम् यज्ञमुखम् दीक्षा यज्ञमुखमिति यज्ञामुखम् दीक्षायज्ञमुखम् यज्ञमुखम् ब्रह्म यज्ञमुखमिति यज्ञामुखम् ब्रह्म यज्ञमुखम् यज्ञमुखम् त्रिवृत् यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्वि याजयति यादयति रजक्षसाम् रजक्षसाम् भागः रजक्षसामिति नृचक्षसाम् भागोऽसि रसीति इति दक्षिणतः दक्षिणतः शुश्रुभागुंसः शुश्रुभागुंसो वै वै नृजक्षसः रजक्षसोऽन्नम् रजक्षस इति नृचक्षसः अन्नम् धाता धाता जाताय जातायैव एवास्मै अन्नमपि अपि दधाति दधाति तस्माज्जातः जातोऽन्नम् अन्नमर्ति अर्तिजनित्रम् जनित्रग्स्पृतम् स्मृतगुम् सप्तदशः सप्तदशः स्तोमः सप्तदश इति सप्तादशः स्तोमैः इत्याह आहान्नम् वै वै जनित्रम् जनित्रमन्नम् अन्नगुम् सप्तदशः सप्तदशोऽन्नम् सप्तदश इति सप्तादशः अन्नमेव देवदक्षिणतः दक्षिणतो धत्ते धत्ते तस्मात् तस्माद्दक्षिणेन दक्षिणेवानम् अन्नमद्यते तद्विदे मित्रस्य मित्रस्य भागः भागोऽसि असीति इति पश्चात् पश्चात् प्राणः प्राणो वै प्राण इति प्रानः वै मित्रः मित्रोपानः अपानो वरुणः अपान इत्यपानः वरुणः प्राणापानौ प्राणापानामेव प्राणापानामिति प्राणापानौ एवास्मिन् अस्मिन् दधाति दधाति युवः निव वृष्टिः वृष्टिर्वाता आह वाताः स्मृताः स्मृता एकविगुंसः एकविगुंस स्तोमः इत्याह आह प्रतिष्ठा प्रतिष्ठा वै प्रतिष्ठेति वा एकविगुंसः एकविगुंसः प्रतिष्ठित्यै एकविगुंस इत्येका प्रतिष्ठित्या इन्द्रस्य प्रतिष्ठित्या इति प्रतिष्ठित्यै इन्द्रस्य भागः भागोऽसि प्रसीदि इत्युत्तरतः उत्तरत ओजः उत्तरत इत्युत्तरतः ओजो वा इन्द्रः इन्द्र ओजः विष्णुः विष्णुरोजः ओजः क्षत्रम् क्षत्रमोजः ओजः पञ्चदशः पञ्चदश ओजः पञ्चदशः ओज एवोत्तरतः उत्तरतो धत्ते उत्तरत इत्युतोत्तरतः धत्ते तस्मात् तस्मादुत्तरतोऽभिप्रयायी उत्तरतोऽभिप्रयायी जयति उत्तरतोऽभिप्रयायी इत्युत्तरतः अभिप्रयायी जयति वसूनाम् वसूनाम् भागः भागोऽसि असीति इति पुरस्तात् पुरस्तादुप उपदधाति दधाति यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वै वसवः वसवो यज्ञमुखम् रुद्रायज्ञमहम् यज्ञमुखम् चतुर्विपुंसः यज्ञमुखमिति यज्ञामुखम् चतुर्विपुंशो यज्ञमुखम् चतुर्विपुंशैर्यतो विगुंसः यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्वियादयति यादयत्यादित्यानाम् आदित्यानाम् भागः भागोऽसि असीति लक्षिणतः दक्षिणतोऽन्नम् अन्नम् वै वा आदिद्याः आदित्यान्नम् अन्नम् मरुतः मरुतोन्नम् अन्नम् गर्भाः ुंसः पञ्चविगुंशोऽन्नम् पञ्चविगुंश इति पञ्च विगुंशः अन्नमेव एव दक्षिणतः दक्षिणतो धत्ते धत्ते तस्मात् तस्माद्दक्षिणेन दक्षिणेनान्नम् अन्नमद्यते पद्यते रीत्यै रीति भागः भागोऽसि असीति इति पश्चात् पश्चात्प्रतिष्ठा प्रतिष्ठा वै प्रतिष्ठेदिप्रगेष्ठा वा अनिदिः अनिदिः प्रतिष्ठा प्रतिष्ठा भूषा प्रतिष्ठेति प्रगेस्था त्रिणवः प्रतिष्ठित्यै त्रिणवैदि त्रिणवः देवस्य प्रतिष्ठित्या इति देवस्य सवितुः सविदुर्भागः भागोऽसि असीति इत्युत्तरतः उत्तरतो ब्रह्म उत्तरतैद्यो दरतः ब्रह्म वै वै सविता सविता ब्रह्म ब्रह्म बृहस्पतिः बृहस्पतिर्ब्रह्म ब्रह्म चतुष्टोमः ब्रह्मवर्चसमेव ब्रह्म वर्चुसमिति ब्रह्म वर्चसम् एवोत्तरतः उत्तरतो धत्ते उत्तरत्युतो धत्ते तस्मात् तस्मादुत्तरः उत्तरोऽर्धः उत्तर इत्युदोत्तरः अर्धो ब्रह्मवर्चसितरः ब्रह्मवर्चसितरः सा वित्रपती ब्रह्मवर्चसितर इति ब्रह्मवर्चसीतरः सा वित्रपती भवति सा वित्रपतीति सा वित्रावती भवति प्रसूत्यै प्रसूच्यै तस्मात् प्रसोत्या इति प्रसूच्य तस्माद्ब्राह्मणानाम् ब्राह्मणानामुदीची सनिः प्रसूता प्रसूता धर्त्रः प्रसूतेति प्रासूता धर्त्रश्चतुष्टोमः चतुष्टोम इति चतुष्टोम इति चतुः सोमः इति पुरस्ताद् पुरस्तादुप उपदधाति दधाति यज्ञमुखम् यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वै धर्त्रः धर्त्रो यज्ञमुखम् यज्ञमुखम् च दुष्टोमः यज्ञमुखमिति यज्ञामुखम् चतुष्टोमो यज्ञमुखम् यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एव पुरस्ताद् पुरस्ताद्वियादयति यादयति यावानाम् यावानाम् भागः भागोऽसि असीति इति दक्षिणतः दक्षिणतो मासा आह मासा वै द्वियावा आह यावा अर्धमासाः अर्धमासा अयावाः अर्धमासा इत्यर्धमासाः अयावास्तस्मात् तस्माद् दक्षिणावृतः मासा आह दक्षिणावृत इति दक्षिणा आवृतः मासा अन्नम् अन्नम् वै वै यावाः या वा प्रजाः प्रजा अन्नम् प्रजा इति अन्नमेव एव दक्षिणतः दक्षिणतो धत्ते धत्ते तस्मात् तस्माद्दक्षिणेन दक्षिणेनान्नम् अन्नमद्यते अद्यतरुभूणाम् ऋभूणाम् भागः भागोऽसि असीति इति पश्चात् पश्चात्प्रतिष्ठित्यै प्रतिष्ठित्यै विभर्तः प्रतिष्ठित्या इति प्रतिष्ठित्यै विभक्तो अष्टाचत्वारिपुंशः विवर्त इति विवर्तः अष्टाचत्वारिपुंश इति अष्टाचत्वारिपुंश इत्यष्टा चत्वारिपुंशः इत्युत्तरतः उत्तरतोनयोः उत्तरत इत्यतः अनयोर्लोकयोः सवीर्यत्वायेति सवीर्यात्वाज तस्मादिमौ इमौ लोकौ लोकौ समावद्वीर्यौ समावद्वीर्यौ यस्य समावद्वीर्याविति समावद्वीर्यौ यस्य मुख्यवतीः मुख्यवतीः पुरस्ताद् मुख्यवतीरिति मुख्यावतीः पुरस्तादुपधीयन्ते उपधीयन्द्रे मुख्यः उपधीयन्द्रेत्युपधीयन्ते मुख्य एव भवति भवत्या आस्य अस्य मुख्यः मुख्यो जायते जायतेयस्य यस्यान्नवतीः अन्नपतीर्दक्षिणतः दन्नवतीत्यन्नावतीः दक्षिणतोपि अत्यन्नम् अन्नवा आस्य अस्यान्नादः अन्नादो जायते अन्नाद इत्यन्नादः जायतेयस्य यस्य प्रतिष्ठावतीः प्रतिष्ठावतीः पश्चात् प्रतिष्ठावतीरिति प्रतिष्ठावतीः पश्चाद्प्रति प्रत्येव एव तिष्ठति तिष्ठति यस्य यस्य ओजस्वतीः ओजस्वतीरुत्तरतः उत्तर ओजस्वी उत्तर इत्युत्तरः ओजस्वेव एव भवति भवत्या आस्य अस्य ओजस्वी ओजस्वी जायते रायतेऽर्कः अर्को वै वा एषः एष यद् यदग्निः अग्निस्तस्य तस्यैतत् एतदेव एव स्तोत्रम् स्तोत्रमेतत् एतच्छस्त्रम् शस्त्रम् यत् यदेषा विधा विधीयते विधेति विधा विधीयतेऽर्के विधीयत इति विधीयते अर्क एव तत् तदर्क्यम् अर्क्यमनु अनुपि विधीयते धीयतेत्य अत्यन्नम् अन्नमा आस्य तस्यान्नादः अन्नादो जायते अन्नाद राजतेयस्य यस्यैषा एषा विधा द्विधा विधीयते विधेति वीधा विधीयते यः विधीयत इति विधीयते यौ उचैनाः एनामेवम् एवम् वेद वेदसृष्टैः सृष्टिरुप उपदधाति दधाति यथा सृष्टम् यथा सृष्टमेव यथासृष्टमिति यथा सृष्टम् वा अवरुन्धे रुन्धेन दिवा दिवान न रक्तम् आसीदव्यावृत्तम् अव्यावृत्तम् अभ्यावर्तं, ते अव्यावृत्तमित्यपि आवृत्तम् हे देवाः देवा एताः देवा एताद्युष्टीः एता व्युष्टिरपश्यन् व्युष्टिरिवि वृष्टिः अपश्यन्ताः ता उप उपादधत ततो वै वा इदम् इदम् वि व्यौवञ्छद औच्छद्यस्य एता उपधीयन्ते उपधीयन् देवि उपधीयन्दैत्युपधीयन्दे येव एवास्मै अस्माति ऋक्षत्यथो अथो तमः अथो इत्यथो तम एवप अपहते हत इति हते अग्ने जातान् जातान् प्रणुदुधानः नः सपद्दान् सपद्दानिति इति पुरस्तात् पुरस्तादुप उपदधाति दधाति जातान् जातानेव एव भ्रातृव्यान् भ्रातृभ्यान्प्रमृदते मुदते सहसा सहसा जातान् जातानिति इति पश्चात् पश्चाज्जनिष्यमाणान् जनिष्यमाणानेव एव प्रति प्रतिनुदते नुदते चतुश्चत्वारि पुंशः चतुश्चत्वारि पुंशस्तोमः चतुश्चत्वारि पुंशैरि चतुः चत्वारि पुंशः स्तोम इति दक्षिणतः दक्षिणतो ब्रह्मवर्चसम् ब्रह्मवर्चसम् वै क्षिणार्थः अर्धोगौ ब्रह्मवर्त्यसितरः ब्रह्मवर्त्यसितरषोडशः ब्रह्मवर्त्यसितरः इति ब्रह्मवर्त्यसितरः षोडशस्तोमः स्तोम उत्तरदभोजः उत्तरद इत्युतो दरदः भोजो वै वै षोडशः षोडशभोजः धत्ते तस्मात् तस्मादुत्तरतोभिप्रजायी उत्तरतोऽभिप्रजायी जयदि उत्तरतोऽभिप्रजायीत्युत्तरतः अभिप्रजायी न यदि वज्रः वञ्ज्रोऽपि पैचतश्चत्वारिपुंशः चतुश्चत्वारिपुंशः वज्रः चतुश्चत्वारिपुंश इति चतुः चत्वारिपुंशः वज्रश्रोणशः श्रोणशो यत् यदेते एते इष्टे एते यद्येते इष्टके उपदधाति इष्टके इति इष्टके उपदधाति जातान् उपदधाति त्रिपदधाति जाताकिश्च त्रैव एव च निष्यमाणान् जनिष्यमाणागश्च च भ्रातृव्यान् भ्रातृव्यान् प्रणद्य प्रणध्यवज्रम् प्रणध्वेति प्राणद्य न ज्यमनु तनुप्रहरति हरदिस्तृत्यै स्तुत्यै पुरीशवतीम् पुरीषवतीम् मध्ये पुरीषवतीमिति पुरीषावतीम् मध्य उप उपदधाति दधाति पुरीशम् पुरीशम् वै वै मध्यम् मध्यमात्मनः आत्मनः सात्मानम् सात्मानमेव सात्मानमिति सा आत्मानम् सात्मामुस्मिन् आत्मेति सा आत्मा अमुस्मिन् लोके लोके भवति भवति यः एवम् वेद वेदयिताः एता वा असपत्नाः असपत्ना नाम नामेष्टकाः इष्टका यस्य यस्यैताः एता उपधीयन्ते दे, उपधीयन्तेन उपधीयन्ते इत्युवधीयन्ते नास्य अस्य सपत्नः सपत्ना भवति भवति पशुः वा एषः एष यद् अग्निर्विराजः विराज उत्तमायाम् विराज इति विराजः उत्तमायाञ्चित्याम् उत्तमायामित्युतोत्तमायाम् चित्यामुप उपदधाति दधाति विराजम् विराजमेव विराजमिति विराजम् एवोत्तमाम् उत्तमाम् पशुषु उत्तमामित्युतो तमाम् पशुषु तस्मात् तस्मात् पशुमान् पशुमान् ति वदति दश दश दश दशोप दश दशेति दशा उपदधाति दधाति सबीर्यत्वाय सवीर्यत्वाय अक्ष्णया सवीर्यत्वाय इति सबीर्याय उपदधाति दधाति तस्मात् तस्मादक्ष्णया पशवः पशवाङ्गानि अङ्गानि प्र हरन्ति प्रदिशत्यै प्रतिष्ठत्यै यानि प्रदिशत्या प्रदेशत्यै यानि वै वै छन्दागुंसि छन्दागुंसि सुवर्ग्याणि स्वर्ग्याण्यासन् स्वर्ग्याणि इति सुभाग्यानि आसन्तैः तैर्देवाः देवाः सुवर्गम् देवा स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकमायन् यन्तेन येन ऋषयः ऋषयोश्राम्यन् अश्राम्यन्ते ते तपः तानि तपसा तपसा अपश्यन्तेभ्यः तेभ्य <Zangyakata>, एता इष्टकाः इष्टकानि निरमिमत अमिमलेवः एव सन्दः छन्दो वरिवः वरिवः छन्दः छन्द इति इदिताः न उप उपादधत उपा अदधददाभिः नाभिर्वै उपैते ते सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुभागम् इष्टकाः इष्टका उपदधाति उपदधाति यानि उपदधातीत्युपादधाति एव छन्दागुंसि छन्दागुंसि सुवर्गाणि स्वर्गाणि तैः स्वर्गाणि इति सुभाग्यानि तैरेव एव यजमानः स्वर्गमिति स्वभागम् एवमेति एति यज्ञेन यज्ञेन वै वै प्रजापतिः प्रजापतिस्प्रजाः प्रजापतिरिति प्रजा असृजता प्रजा इति प्राजाः असृजतताः ताः स्तोमभागैः सोमभागैरेव स्तोमभागैरिति स्तोमाभागैः एवासृजत असृजतयत् यत् स्तोमभागाः स्तोमभागा उपदधाति स्तोमभागा इति स्तोमाभागाः उपदधाति प्रजाः उपदधातीत्युपादधाति प्रजा एव प्रजा इति प्राजाः एव तत् तद्यजमानः यजमानसृजते सृजते बृहस्पतिः बृहस्पतिर्वै वा एतत् एतद्यज्ञस्य यज्ञस्विजः तेजस्सम् समभरत् अभद्यत् यत् स्तोमभागाः स्तोमभागा यत् स्तोमभागा इति स्तोमाभागाः यत् स्तोमभागाः स्तोमभागा उपदधाति स्तोमभागा इति स्तोमाभागाः उपदधाति सतेजसम् उपदधाति इत्युपदधाति सतेजसमेव अग्निम् चिनुते चिनुते बृहस्पतिः बृहस्पतिर्वै एताम् एताम् यज्ञस्य यज्ञस्य प्रतिष्ठाम् प्रतिष्ठामपश्यत् प्रतिष्ठामि यत् प्रतिष्ठाम् अपश्यद्यत् यत् स्तोमभागाः यत् स्तोमभागाः स्तोमभागा उपदधाति स्तोमभागा इति उपदधाति यज्ञस्य उपदधाति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै सब्दशब्द प्रतिष्ठित्या इति प्रदेशित्यैपसप्तशब्द इति सप्ता सप्ता उपदधातिय तिस्रः श्रीर्यत्वायति समीर्जाय तिस्रो मध्ये मध्ये प्रतिष्ठित्यै प्रतिष्ठित्य इति रश्मिति एवा आदित्यम एवादित्यम् आदित्यमसृजत असृजतप्रेतिः प्रेदिरिति प्रेदिरिति प्रादिः इति धर्मम् धर्ममन्वितिः अन्विधिरिति अन्विजरित्यरोचितिः इति दिवम् दिवकुम् सन्धिः सन्धिरिति सन्धिरिति सन्धि इत्यन्तरिक्षम् अन्तरिक्षम् प्रदिः प्रतिधिरिति प्रतिधिरिति प्रदि इति पृथिवीम् पृथिवीम् विष्टम्भः विष्टम्भ इति विष्टम्भ इति स्तम्भः इति प्रवा प्रवेदि प्रवेदिप्रवा इत्यहः अहरो वा अनुवेदि एदिरात्रिम, रात्रिमुषिक। इति वसून् वसून् प्रकेदः प्रकेद इति प्रकेद इति प्राेदः इति रुद्रान् रुद्रान् सुधीतिरि सुधीतिरितिः इत्यादित्यान् आदित्यानोजः ओज इतिस्तन्तुः तन्तुरिति इति प्रजाः प्रजास्पृतनाशाट् प्रजातिप्राजाः पृतनाशाडिति इति वशोन् पशोन् रेवत् रेवरभिजित् अभिजिदसि ग्रामः युक्तग्रामेन्द्राय युक्तग्रावेति युक्ता ग्रावाः इन्द्राय इंद्रा द्वा त्रेन्द्रम् इन्द्रम् जिन्व जिन्वेति इत्येव एव दक्षिणतः दक्षिणतो वज्रम् वज्रम् परि ताः प्रजाः प्रजा अपप्राणाः प्रजा इति प्राजाः अपप्राणा असृजत अपप्राणा इत्यप्राणाः असृजततासु तास्वधिपतिः अधिपतिरसि अधिपतिरित्यधिपतिः असीति इत्येव एव प्राणम् प्राणमदथात् प्राणमिति प्राणम् अदथा ग्यन्ता गन्तेति इत्यपानम् अपानकम् सकुंसर्पः अपानमित्यपानम् सकुंसर्प इति सकुंसर्प इति संसर्पः इति वयोधा इति इति वयहाधाः इति ताः प्रजाः प्रजाः प्राणतीः प्रजा इति प्राजाः प्राणतीरपानतीः प्राणतीप्र अनदीः अपानदीः पश्यन्तीः अपानदीरित्यपा अनदीः पश्यन्दीशृण्वतीः शृण्वतीर्न न मिचुनी मिचुनी अभवन् अभवन्तासु तासु धृत् त्रिभृतसि त्रिभृति त्रिवृत् इत्येव एव मिथुनम् मिथुनमदधात् अदधात्ताः ताः प्रजाः प्रजामिथुनी प्रजा इति प्राजाः मिथुनी भवन्तीः भवन्ती न प्र प्राजायन्ता प्रजायन्तताः ताः सगम् रोहः सगुं रोहोऽसि इति संरोह असि इत्येव एव प्र प्राजनयत् अजनयत्ताः ताः प्रजाः प्रजाः प्रजाताः प्रजा इति प्राजाः प्रजाता तावसुखः वसुकोऽसि असिवेषश्रिः वेषश्रिरसि वेषश्रिरिवेषाश्रिः असिवस्यष्टिः अस्यष्टिरसि असीति इत्येव एवैषु एषु लोकेषु लोकेषु प्रति यदाह आह वसुकः असि वेषश्रिः वेषश्रिरसि वेषश्रिवेषाश्रिः असि वस्यष्टिः वस्यष्टिरसि असीति इति प्रजा एव प्रजा एवम् प्रजाताः प्रजाता येषु प्रजाता इति प्राजाताः येषु लोकेषु लोकेषु प्रति प्रतिष्ठापयति स्थापयति सात्मा सात्मा अन्तरिक्षम् सात्मेति स आत्मा अन्तरिक्षकम् रोहति रोहति स प्राणः स प्राणोऽस्मिन् स प्राण इति सा प्राणः अमुष्मिन्लोके लोके प्रति प्रतिष्ठति तिष्ठत्यव्यर्थुकः अव्यर्थुकः प्राणापानाभ्याम् अव्यर्थुक इत्यपि अर्धुकः प्राणापानाभ्याम् भवति प्राणापानाभ्यामिति प्राणापानाभ्यामम् भवरि यः यदेवम् एवम् वेद वेदेति वेद नाकसद्भिर्वै नाकसद्भिरिति नाकसद्भिः वै देवाः देवाः स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति आयन्दत् तन्नाकसदाम् नाकसदाम्नाकसत्त्वम् नाकसतामिति नाकासदाम् नाकसत्त्वत् नाकसत्त्वमिति नाकसतत्वम् यन्नाकसदः नाकसद उपदधाति नाकसद इति नाकासदः उपदधाति नाकसद्भिः उपदधातीत्युपदधाति नाकसद्भिरेव नाकसद्भिरिति नाकसतभिः एव तत् तद्यजमानः यजमानः सुवर्गम् सुवर्गं लोकम् सुवर्गमिति लोकमेति एति सुवर्गः सुवर्गो वै स्वर्ग लोको नाकः नाको यस्य यस्यैताः एता उपधीयन्ते उपधीयन्तेन उपधीयन्तेधीयन्ते नास्मै अस्माकम् अकम् भवति भवते यजमानायतनम् यजमानायतनम् मयि यजमानायतनमिति यजमाना आयतनम् वै नाकसदः नाकसदो यत् नाकसद इति नाकासदः यन्नाकसदः आयतनमेव आयतनमित्या आयतनम् तद्यजमानः यजमानः कुरुते कुरुते पृष्ठानाम् पृष्ठानाम् वै वा एतत् एतत्तेजः तेजः सम्भृतम् सम्भृतम् यत् सम्भृतमिति सम्भृतम् यन्नाकसदः नाकसदो उपदधाति नाकसद उपदधाति पृष्ठानाम् उपदधातीत्युपादधाति पृष्ठानामेव एव तेजः तेजोव अपरुन्धे रुन्धे पञ्चचोडाः पञ्चचोढा उप पञ्चचोढा इति पञ्चाचोडाः उपदधाति दधात्यप्सरसः अप्सरस एवैनम् एनमेताः एता भूताः भूता, भूता अमुष्मिन् अमुष्मिन् लोके लोक उप उपशेरे शेरेऽथो अथो तनोपानीः अथो इत्यथो तनुबानीरेव तनोपानिरिति तनोपानीः एवैताः एतायजमानस्य यजमानस्य यम् दृश्यात् दृश्यात्तम् तमुपदधत् उपदध्यायेत् उपदधरित्युपदधत् ध्यायेदेताभ्यः एताभ्य एव देवैनम् एनम् देवताभ्यः देवताभ्या आवृष्टदि पृष्टदि ताजग, आर्तिमा आर्क्षतिुत्तराः उत्तरा नाकसभ्यः उत्तरा इत्युत्तरा ना नाकसभ्य उपनाकसभ्य इति नाकसतेभ्यः ना उपदधाति तथा यथा जायाम् जायामानीय आनीय गृहेषु आनीयेत्या आनीय गृहेषु निषादयति निषादयति तादृक् निषादयतीति निसाधयति तादृगेव एव तत् तत्पश्चात् पश्चात्प्राचीम् प्राचीमुत्तमाम् उत्तमामुप उत्तमामित्युदत्तमाम् उपदधाति दधाति तस्मात् तस्मात् पश्चात् पश्चात्प्राचीः प्राची पत्न्यनु अन्वास्ते आस्ते स्वयमादृणाम् स्वयमादृणाम् च स्वयमादृणामिति स्वयम् आदृणाम् च विकर्णीम् विकर्णीम् च विकर्णीमिति विकर्णीम् चोत्तमे उत्तमे उप उत्तमे उपदधाति दधाति प्राणो वै प्राणविधिप्राणः वै स्वयमादण्णा स्वयमादर्णायुः अयमादण्ण्येति स्वयम् आदृण्णा आयुर्विकर्णे विकर्णे प्राणम् विकर्णेति विकर्णी प्राणम् च प्राणविधिप्राणम् एवायुः आयुश्च तत्प्राणानाम् प्राणानामुत्तमौ प्राणानाविधिप्राणानानाम् उत्तमौ धर्ते उत्तमाविद्युत्तमौ धर्त्ये तस्मात् प्राणः प्राणश्च प्राण इति प्राणः चायोः आयुश्च प्राणानाम् प्राणानामुत्तमौ प्राणानामिति प्राणानाम् उत्तमौ न उत्तमामित्युदोत्तमौ नान्याम् इष्टकामुप उपदध्यात् दध्यादि यदन्याम् अन्यामुत्तराम् उत्तरामिष्टकाम् उत्तरामित्युदराम् इष्टकामुपदध्यात् उपद्यात् पशूनाम् उपदध्यादित्युपदध्यात् पशूनाम् च यजमानस्य यजमानस्य च च प्राणम् प्राणम् च प्राणमिति प्राणम् चायुः आयुश्च नान्य अन्योतः उत्तरेष्टका ओ तरेंद्र दरा इष्टकोपधेयाः उपधेयाः स्वयमातॄणाम् उपधेयेत्युपातॄणामुपण्णामिति स्वयम् मादृणाम् दधाद्यसौ असौ वै वै स्वयमातृणाेति स्वयम् आदृणा अमुमेव एवोप उपधत्दे धत्तेष्वम् अश्वमुप उपघ्रावैलिघ्रावैलि प्राणम् प्राणमेव प्राणमिति एवास्याम् अस्याम् दधाति दधात्यथो अथो जावत्यः अथो विसो राजावृत्यो मयि राजावत्येति प्राजावृत्यः वा अश्वः अश्वः प्रजापतिना प्रजापतिनैव प्रजापचने प्रजापदिना एवाग्नि स्वयमादण्णा स्वयमादण्णा भवति स्वयमादरण्येति स्वयम् आदृण्णा भवति प्राणानाम् प्राणानामुत्सृष्टिः प्राणानामिति प्राणानाम् उत्सृष्ट्याथो उत्सृष्ट्या इत्युत्सृष्टिः अथो सुवर्गस्य अथो इत्युतो स्वर्गस्य लोकस्य स्वर्गस्य यदि स्वभागस्य लोकस्यानुख्यात्यै लो अनुख्यात्या एषा अनुख्यात्या इत्यनुख्यातिः एषा वै ि देवानाम् देवानां विक्रान्तिः विक्रान्तिर्यद् विक्रान्तिरिविक्रान्तिः यद्विकर्णी विकर्णीयत् विकर्णीति विकर्णी यद्विकर्णीम् विकर्णीमुपदधाति विकर्णीमिति विकर्णीम् उपदधाति देवानाम् उपदधातीत्युपदधाति देवानामेव एव विक्रान्तिम् विक्रान्तिमनु विक्रान्तिक्रान्तिम् अनुविक्रमरे क्रमद उत्तरतः उत्तरत उप तस्मादुत्तरत उपचारः उत्तरत उपचारोऽग्निः उत्तरत उपचार इत्युत्तरतः उपचारः अग्निर्वायुमती वायुमती भवति वायुमतीति वायुमती भवति समिध्यै समिध्या इति साध्यधाति दधाति पशवः पशवो वै वै छन्दाकंसि छन्दाकंसि पशून् पशूनेव अपरुन्धे रुन्धे छन्दागंसि छन्दागंसि वै वै देवानाम् देवानाम् वामम् वामम् पशवः पशवो वामम् वाममेव एव पशोर् पशोनव अवरुन्धे रुन्धयेताम् एतागृह्म ह वै वै यज्ञसेनः यज्ञसेनश्चैत्रियाजनः यज्ञसेन इति यज्ञासेनः चैत्रियाजनश्चितिम् शितिम् विधाम् विधाञ्चकार चकारतया तया वै वै सह स पशोर् पशोनव अवारुन्ध अरुन्धयत् उपदधाति पशून् उपदधादिज्युपादधाति पशूनेव एवाव अपरुन्धे वृन्धे गायत्रीः गायत्री पुरस्ताद् पुरस्तादुप उपदधाति दधाति तेजः तेजो वै वै गायत्री गायत्री तेजः तेज एव एव मुखदः धत्ते धन्ते मूर्धन्वदीः मूर्धन्वदीर्भवन्ति मूर्धन्वदीरिमूर्धन्वदीः भवन्ति मूर्धानम् मूर्धानमेव एवैनम् येनकम् समानानाम् समानानाम् करोति करोति त्रिष्टुभः त्रिष्टुभौप उपदधाति दधातीन्द्रियम् वै वै त्रिष् इन्द्रियमेव एवमध्यदः मध्यदो धत्ते दधते जगतीः जगतीरुप उपदधाति दधाति जागताः जागता वै पशवः पशवः पशून् पशोनेव एवाव तव रुन्धे वृन्धेऽष्टुभः अनष्टुभौ वा अनष्टुभैद्यनोस्तुभः उमलधारि धारि प्राणाः प्राणा वै प्राणा इति प्राणाः वा अनष्टुप् अनष्टुप्राणानाम् अनुष्टुव्यक्तिनोष्टुप् ऋषदे रुष्णिः आह उष्णिः आः पङ्क्तिः पङ्क्तेरक्षरपङ्क्तेः अक्षरपङ्क्तिर्ये अक्षरपङ्क्तेरित्यक्षरापङ्क्तिः इति विषरूपाणि विषरूपाणि छन्दागंसि विषरूपाणि इति विशोरूपाणि छन्दागस्य वा दधादि दधादि विषरूपाः द्विषरूपा वै विषरूपा इति विशोरूपाः वै पशवः पशवः पशवः पशवश्छन्दागंसि छन्दाकंसि विषरूपान् विषरूपालेव विषरूपान् इति विशोरूपान् एव पशून् पशूनव अवरुन्धे रुन्धे विषरूपम् विषरूपमस्य विषरूपमिति विशोरूपम् अस्य गृहे गृहे दृश्यते दृश्यते यस्य एता उपधीयन्ते उपधीयन्ते यः उपधीयन्ते इत्युपाधीयन्ते यपो उच चैनाः येन एवम् एवम् वेद वेदादिच्छन्दसम् अतिच्छन्दसमुप अतिच्छन्दसमित्यतिच्छन्दसम् उपदधाति दधात्यतिच्छन्दाः अतिच्छन्दा वै अतिच्छन्दा सर्वाणि सर्वाणि छन्दागुंसि छन्दागुंसि सर्वेभिः सर्वेभिरेव एवैनम् एनम् छन्दोभिः छन्दोभिश्चिनुते छन्दोभिरिच्छन्दःभिः चिनुते वर्ष्णात् वर्ष्णवै वा एषा एषा छन्दसाम् छन्दसाम् यत् यदतिच्छन्दाः अतिच्छन्दायत् अतिच्छन्दा इत्यति छन्दाः यदधिच्छन्दसम् अतिच्छन्दसमुपदधाति अतिच्छन्दसमित्यति छन्दसम् उपदधाति वर्ष्णा उपदधाति द्विपाधाति वर्ष्णैव एवम् केनकम् समानानाम् समानानाम् करोति करोति द्विपदाः द्विपदा उपा द्विपदा इति द्वीपदाः उपदधाति दृढादि द्विपाद्विपाद्यमानः द्विपादिति द्वीपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै सर्वाः द्यो यि देवताभ्यः देवताभ्योऽग्निः अग्निश्चीयते चीयते यत् यत्सयुजः सयुजो न सयुजैति सायुजः नोपदध्यात् उपदध्याद्देवताः उपदध्यादित्युपादध्याद् देवतास्य अस्याग्निम् अग्निम् वृञ्जीरन् वृञ्जीरने सयुज उपदधारि सयुज इति सायुजः उपदधायाच्यात्मनाः उपदधारीत्युपादधारि त्मनैव ये एवैनम् येन किम् सयुजम् सयुजम् चिनुते सयुजमिति सायुजम् चिनुतेन नाग्निना अग्निनाभि व्यर्ध्यरे वृद्ध्यरेऽो अथो यथा अथो यथो यथा पुरुषः पुरुषस्नामभिः एवमेव एवैताभिः एताभिरग्निः अग्निः सन्ततः सन्ततोग्निना सन्तत इति सन्ततः देवाः स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकमायन् आयन्ताः ता अमोः अभवन् अभवन् यस्य एता उपधीयन्ते उपधीयन्ते स्वर्गम् उपधीयन्ते इत्युपधीयन्ते सुवर्गमेव सुवर्गमिति सुभागम् एव लोकम् लोकमेति एति गच्छति गच्छति प्रकाशम् प्रकाशम् चित्रम् प्रकाशमिति प्राकाशम् चित्रमेव एव भवति भवति मण्डलेष्टकाः मण्डलेष्टका उपमण्डलेष्टका इति मण्डला इष्टकाः उपदधाति दधाति इमे इमे वै लोकाः लोकामण्डलेष्टकाः मण्डलेष्टका इमे मण्डलेष्टका इति मण्डला इष्टकाः इमे खलु खलु वै वै लोकाः लोकादेव देवपुरा देवपुराः देवपुरा इति देवापुराः देवपुरा एव देवपुरा इति देवापुराः देवप्र प्रविशति विशति न आर्तिमा आर्च्छति पृच्छत्यग्निम् अग्निम् चित्यानः इत्यनो विश्वज्योतिषः विश्वज्योतिष उपविश्वज्योतिशैलीविश्वज्योतिषः उपदधाति दधाति इमान् इमानेव एवैताभिः लोकाञ्ज्योतिष्पदः ज्योतिष्पतः कुरुते कुरुतेऽोः अथो प्राणान् अथो इत्यतो प्राणानेव प्राणानिति प्राणान् एवैताः एतायजमानस्य यजमानस्य दाध्वलि दाध्व्येताः एता वै वै देवताः देवताः स्वर्ग्याः स्वर्गास्ताः स्वर्ग्या इति सुभाग्याः ता एव देवान्वारभ्य अन्वारभ्य स्वर्गम् अन्वारभ्येति नो आरभ्य स्वर्गम् लोकम् सुवर्गमिति सुभागम् लोकमेति हेतीत्येति वृष्टिस नीरुप वृष्टिसनीरिति वृष्टिसनीः उपदधाति दधाति वृष्टिम् वृष्टिमेव एवाव अवरुन्धे वृन्धे यत् यदेकथा एकथोपदध्यात् एकथेत्येकाधा उपदध्यादेकम् उपदध्यादित्युपादध्यात् एकमृतम् ऋतम् वर्षेत् वर्षेदनुपरिहारम् अनुपरिहारकम् साधयति अनुपरिहारमित्यनोपरिहारम् साधयति तस्मात् तस्मात् सर्वान् सर्वानृतोन् ऋतोनुवर्षति वर्षति पुरोपातसनिः पुरोपातसलिरसि पुरोपातसनिरिति पुरोपातः सनिः असीति कृत्याह आहैतत् एतद्वै वै वृष्ट्यै वृष्ट्यैरूपम् रूपकम् रूपेण रूपेणैव एव वृष्टिम् वृष्टिमव अवरुन्धे वृन्धे संज्ञानीभिः सञ्ज्ञानीभिर्वै संज्ञानीभिरिति देवा इमान् इमान् लोकान् लोकान् सम् समयुः अयस्तत् तत्संज्ञानीनाम् संज्ञानीनाकुम् संज्ञानित्वम् संज्ञानीनामिति संज्ञानीनाम् संज्ञानि त्वमिति संज्ञानीत्वम् यत्संज्ञानीः संयानीरुपदधाति संयानीरिति संज्ञानीः उपदधाति यथा उपदधातीत्युपदधाति यथाप्सु अप्सु नावा अप्सुत्यपसु नावा संयाति संयात्येवम् संयातीति संजाति एवमेव एवैताभिः एताभिर्यजमानः यजमान इमान् इमाल्लोकान् लोकान्थम् संयाति यातिप्लवः प्लवो वै वा एषः एषो अग्नेः अग्नेर्यत् यत् सञ्जानीः सञ्जानीर्यत् सञ्जानीरिति सञ्ज्ञानीहि यत्सञ्जानीः सञ्जानीरुपदधाति सञ्जानीरिति सञ्जानीः उपदधाति प्लवम् उपदधातीत्युपदधाति प्लवमेव एवैतम् एतमग्नयेः अग्नय उप उपदधाति दधात्युत उदयस्य यस्यैतासु एतासूपहिरासु उपहिरास्वापः उपहिरास्वित्युपाहितासु आपोऽज्ञम् अग्निम् हरन्ति हरन्त्यहृतः <Sess> एवास्य तस्याग्निः अग्निरादित्येष्टकाः आदित्येष्टका उप आदित्येष्टका इत्यादित्य इष्टकाः उपदधाति दधात्यादित्याः आदित्या वै वा एतम् एतम् भवत्यै भवत्यै प्रति प्रतिमुदन्ते मुदन्ते यः योलम् अलम्भूत्यै भवत्यै सन् सं, सम्भूतिम् भूतिम् न प्राप्नोति प्राप्नोत्यादित्याः प्राप्नोतीति प्र एवैनम् एनम् भूतिम् भूतिम् गमयन्ति गमयन्त्यसौ असौ वै वा एतस्य एतस्यादित्यः आदित्योरुचम् ऋषमा आदित्ये प्रत्ययः योऽग्निम् अग्निम् चित्वा चित्वा न रोचते यदादित्येष्टकाः आदित्येष्टका उपदधाति आदित्येष्टका इत्यादित्या इष्टकाः उपदधात्यसौ उपदधाति इत्युपादधाति असावेव एवास्मिन् अस्मिन्नादित्यः आदित्योरुचम् रुचम् दधाति दधाति यथा यथासौ असौ देवानाम् देवानागम् रोचते रोचत एवमेव देवैषः एष मनुष्याणाम् एवा, शाना, मनुष्याणागम् रोचते रोचते घृतेष्टकाः घृतेष्टका उपघृतेष्टका इति घृताष्टकाः अग्नेः यद्घृतम् घृतम् एवैनम् एनम् धाम्ना धाम्नासम् समर्थयति अर्थयत्यथोः अथो तेजसा अथो इत्यथोः तेजसानुपरिहारम् अनुपरिहारगम् साधयति अनुपरिहारमित्यनोपरिहारम् साधयत्य अपरिवर्गमेव अपरिवर्गमित्यपरीवर्गम् एवास्मिन् अस्मिन् तेजः तेजो दधाति प्रजापतिः प्रजापतिलड्निम् प्रजापतिलड्निप्रजापतिः अग्निमचिलत अचिलतसा स यशसा यशसावि या आर्ध्यत आर्ध्यतसः स यशोदा अपश्यत् यशोदा इति यशः ता उप उपाधत्त रधत्राभिः ताभिर्वै वै सः यशः यश आत्मन् आत्मन्न धत्त यद्यशोदाः यशोदा उपदधाति यशोदा इति यशः ताः उपदधाति यशः उपदधातीत्युपादधाति यश एव ताभिर्यजमानः यजमान आत्मन् आत्मन्धत्ते धत्ते पञ्च पञ्चोप उपदधाति दधातिपान्तः पान्तः पुरुषः संयत्ताः देवासुराः संयत्तासन् संयत्ता इति संयक्ताः आसन् कनीयागम् सः कनीयागम् सो देवाः देवा आसन् आसन् भूयागुंसः भूयागुंसोऽसुराः असुरास्ते ते देवाः देवा एताः देवा एता, एता इष्टकाः इष्टका अपश्यन् अपश्यन्ताः ता उप उपादधत दादा, अदधत भूयस्कृत भूयस्कृतसि भूयस्कृदिति भूयः कृत् इत्येव एव भूयागं सः भूयागंसोऽभवन् अभवन् वनस्पतिभिः वनस्पतिभिरोषधिभिः वनस्पतिभिरिति वनस्पतिभिः ओषधीभिर्विवरिवस्कृत् ओषधीभिरित्योषधिभिः वरिवस्कृतसि वरिवस्कृदिति वरिवः कृत् असीति इतीमाम् इमामजयन् अजयन् प्राची प्राच्यसि असीति इति प्राचीम् प्राचीन्दिशम् दशमजयन् अजयन्न ऊर्ध्वा ऊर्ध्वासि असीति इत्यमोम् अमोमजयन् अजयन्नन्तरिक्षसत् अजयन अन्तरिक्षसदसि अन्तरिक्षसदित्यन्तरिक्षासत् अस्यन्तरिक्षे अन्तरिक्षे सीद सीदेति इत्यन्तरिक्षम् अन्तरिक्षमजयन् अजयन्ततः ततो देवाः देवा अभवन् अभवनन्तराः परासुराः असुरायस्य यस्येताः एता उपधीयन्ते उपधीयन्ते भूयान् उपधीयन्त इत्युपधीयन्तेः भूयानेव एव भवति भवद्यभि अभीमान् इमान् लोकान् लोकाञ्च यदि भवति भवत्यात्मनाः आत्मना पराह पराहस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवत्यप्सुषत् अप्सुषदसि अप्सुषदित्यप्सूसत् असि श्येनसत् श्येनसदसि श्येनसदिति श्येनासत् असीति इत्याह आहैतत् एतद्वै अग्नेः अग्ने रूपम् रूपकम् रूपेण रूपेणैव एवाग्निम् अग्निमव अवरुन्धे रन्धे पृथिव्याः पृथिव्या स्वाः पा द्रविणे द्रविणे सादयामि सादयामीति इत्याह आहेमान् इमानेव एवैताभिः एताभिर्लोकान् लोकान् द्रविणावतः द्रविणावतः कुरुते द्रविणावत इति द्रविणावतः कुरुतायुष्याः आयुष्याप उपदधाति दधात्यायुः आयुरेव एवास्मिन् एवा अस्मिन् अस्मिन दधाति दधात्यग्ने आज्ञेयत् यद, यत्ते ते परम् परम् हृत् घृन्नाम नामेति इत्याह आहेजत् एतद्वै वा अग्नेः अग्नेः प्रियम् प्रियम् धाम धामप्रियम् प्रियमेव एवास्य एवा، अस्य धाम धामोप उपानोति उपा आप्नोति तौ एहि इहि सं सगुम्रभाव इत्याह आहवि येव एव एनेन परि परिधत्ते धत्ते पाञ्चजन्येषु पाञ्चजन्येष्वपि पाञ्चजन्येष्विति पाञ्चजन्येषु अप्येधि येऽध्यग्नेः इत्याह आहैषः एषवि वा अग्निः अग्निः पाञ्चजन्य इति पाञ्चाजन्यः यः पञ्चजिदीवः पञ्चजिदीकस्तस्माद् पञ्चजिदीप इति पञ्चादिदीवः तस्मादेवम् एवमाह आहक्तव्या आहृतव्या उप उपदधादि दधाद्येतद् एतद्वै वा ऋतूनाम् ऋतूणाम् प्रियम् प्रियन्धाम धाम यद् यदऋतव्या आहृतव्या एव प्रियम् प्रियन्धाम धामाव अपरुन्धे रुन्धे सुमेकः सुमेग इति सुमेगैतिसोमेकः इत्याह आह संवत्सरः संवत्सरो वै संवत्सर वै सुमेकः सुमेकः संवत्सरस्य सोमेकः संवत्सरस्यैव संवत्सरस्येति संवत्सरस्य एव प्रियम् प्रियम् धाम धामोप उपा आप्नोति आप्नोतीत्या आप्नोति प्रजापतेरक्षि प्रजापतेरचित् प्रजापतेः अक्ष्यश्वयत् अश्वयत्तत् तत्परा परापदत् अपदत्तत् तदश्वः अश्वोभवत् अभवद्यद् यदश्वयत् अश्वयत्तत् तदश्वस्य अश्वस्याश्वत्वम् अश्वत्वम् तत् अश्वत्वमित्यश्वत्वम् तद्देवाः देवा अश्वमेधेन अश्वमेधेनैव अश्वमेधेनेत्यश्वमेधेन एव प्रति प्रत्यदधुः एष वै वै प्रजापतिम् प्रजापतिम् सर्वम् प्रजापतिमिति प्रजापतिम् सर्वम् करोति दि, करोति यः अश्वमेधेन अश्वमेधेन यजते अश्वमेधेन यश्वमेधेन यजते सर्वः सर्व एव भवति भवति सर्वस्य सर्वस्य वै एषा एषा प्रायश्चित्तिः प्रायश्चित्तिः सर्वस्य सर्वस्य भेषजम् भेषजकम् सर्वम् सर्वम् वै वा एतेन एतेन पाप्मानम् देवाः देवा अतरन् अतरन्नपि अपि वै वा एतेन एतेन ब्रह्महत्याम् ब्रह्महत्यामतरन् ब्रह्महत्यामिति ब्रह्महत्याम् अतरम् सर्वम् सर्वम् पात्मानम् तरति तरति तरति तरति ब्रह्महत्याम् ब्रह्महत्याम् यः ब्रह्महत्यामिति ब्रह्महत्याम् अश्वमेधेन यजते अश्वमेधेनेत्यश्वमेधेन यजते यः यवो उच चैनम् एनमेवम् एवम् वेद वेदोत्तरम् उत्तरम् वै उत्तरमित्युतोत्तरम् प्रजापतेरि प्रजापतेः अक्ष्यश्वयत् अश्वयत्तस्मात् अश्वयत तस्मादश्वस्य तस्माद अश्वस्योत्तरतः उत्तरतो वा उत्तरतेति तरतः अपद्यन्ति द्यन्ति दक्षिणतः दक्षिणतो अन्येषाम् अन्येषाम् पशूनाम् पशूनाम् वैतसः वैतसः कटः कटो भवति भवद्यप्सुयोनिः अप्सुयो निर्वै अप्सुयोनिरित्यप्सो योनिः वा अश्वः अश्वो अप्सुजः अप्सुजो वेतसः अप्सुज इत्यप्सूजः वेतसः स्वे स्व एवैनम् एनम् यो नौ यो नौ स्तोमो भवति भवति सरड् सरड ह वा अश्वस्य अश्वस्य सर्ख्या आवृहत् अबृहत्तत् तद्देवाः देवाश्चतुष्टोमेन चतुष्टोमेनैव चतुष्टोमेनेति चतुः स्तोमेन एव प्रति प्रत्यदधुः चतुष्टोमस्तोमः चतुष्टोमेति स्तोमः भवति भवत्यश्वस्य अश्वस्य सर्वत्वाय सर्वत्वा सर्वात्वाय पञ्चमकाण्डे तृतीयः प्रश्नः समाप्तः